पुराविरभवति श्रीवैष्णवानां कुले hmm. यद्रूपेण सुदर्शनोऽपि अविदय विष्णु शिवाराधक लोके बोधयितुम् श्रुतिरित शिवोत्कर्यं जगत्क्षेमकृति स् श्रीहरदत्तनाम गुरुराठी तन्वीत भद्रा Nah-ha-ha-ha. Uh uh Ah-ha-ha. हरदत्तगुरुस्वामिन् अतिकृपासहीतं त्वां शरणं भजे सततं स्वायमिन् स गीतम् चन्द्रुरा दीय पुरा पद पद्मा भारीत हृदय शरणं बाजे सततं मारय मथन मधुपुरितं तव मुख जलजरण कृपास गीतं वां शरणं भजे सततं अखकरय सुधया सुगयापू tamuk keshibekata sudaya puritam shrotra yugam charanau swaha am so bhaya ayam shiva leyam pradhakshina karom tava pada kripa as egypton karnon majey sata